श्रीमद्भागवत महापुराण दस स्कस द्वार कूब पर धनुषंग और कंस की खबराहट श्रीशुकुवाच अस व्रजन राजथेन माधव श्रि गृहतांग विलेपभाजना विलोक्यकुबा युवती पप्रक्षयान्ति प्रहसन्नसप्त कातम्बरोर्वेतदूं हानुलेपनम् कस्याङ्गने वा कथयस्य साधुनः देह्यावयोरङ्गविलोपमुत्तमम् श्रेयस्ततस्ते न चिराद्भविष्यति सैरन्ध्युवाच दास्यास्यहं सुन्दरकंसम्मताम् त्रिवक्रनामाशनुलेपकर्मणि मद्भावितं भोजपतेरतिप्रियं विना युवां कोऽन्यतमस्तदर्हते रूपपेसलमाधुर्यं हसितालापवीक्षितैः धर्षितात्मा ददौ सान्द्रम् उभयोरनुलेपनम् ततस्तावङ्गरागेण श्ववर्णेतरशोभिनाम् स प्राप्तसरभागेन शुशुभाते निरञ्जितौ प्रसन्नो भगवान् कुब्जाम् त्रिवक्राम् ऋचिराननाम् ऋजिम् कर्तुम् मनश्चक्रे दर्शयन् दर्शने फलम् पद्भ्याम् आक्रम्य प्रपदे द्वैङ्गुल्योत्थानपाणिनाम् प्रगृह्यचुविकेध्यात्मम् उदने न मदच्युतः ता तदर्जुनसमानाङ्गे बृहत्सोणि प्रयोधरा मुकुन्दस्पर्शनाः सद्यो बहुव प्रमदोत्तमाम् ततो रूप गुणौदार्य सम्पन्ना प्राह केशवम् उत्तरीयान्तम् यन्ति जात हृद्ध्याम् एहि वीर यामो न त्वां त्यक्तुं मुहुः सहे त्रयोन्मथितचित्ताय प्रसीद पुरुषर्षभ एवं श्रियायाच मान कृष्णो रामस्य पश्यतः मुखं भिक्षानुगानां च प्रसंस्तामुवाच एस्यामिते ते गृहं शुभ्रो पुंसामाधिविकर्षणम् साधितार्थो गृहाणां न पन्थानां त्वम् परायणम् विसृज्य माध्याम् दाणव्याम् विसृज्या माधव्या वाण्या ताम् व्रजनमार्गे मणिग्पथे नानोपायनृताम्बूलस्रगन्धैः सा तर्दर्शन स्मरक्षोभादात्मानं नाविदन् श्रियः विशस्तवासकवरवलयालेखि मुतयः ततः पौरान् पृक्षमाणो धनुषस्थानमच्युतः तस्मिन् प्रविष्टो दर्शे धनैरन्द्रमिवाद्भुतं पुरुषै बहुभिर्गुप्तम् अर्चितं परमद्धितं मिमत वार्यमाणो लिभिः कृष्णप्रसय्य धनुराधदे करेण वामेन शलीलमुद्धृतं सद्यं च कृत्वा निमिषेन पश्यताम् निरामृकृष्यं प्रभजन् मध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः धनुषो भज्यमानस्य शब्दखं रोदसी दिशः पूरीयामाशं श्रुवा कंस्राश मुगमत तद्रक्षिणशशाचरा कुता आततायिन गृहतु काम आवर्द गृह्यता असतान्ुाया विलोक्य बल केशव क्रुद्धौ धन्वन आदा शकलें ज्न बलं च कंस प्रहितम् हत्वा शालामुखा ततः निष्क्रम्य चेरतुर्शिष्टौ निरीक्ष्य सुसं पुरसम्पदः तयोस्तद्भुतम् विर्यं निशाम्य प्रवासिनः तेज प्रागल्भ्यम् रूपं च मे निरेविबुधोत्तमौ तयोर्विचरतो स्वैरादित्यौस्तमुपेयिवान् कृष्णरामौ वृतौ गोपये पुरा क्षटं च कुटुमीयुतयतु गोप्यो मुकुन्द विगमे विरहातुरायाम् आशासतासि सजिता मधुपुरीं भुवनं सम्पश्यतां पुरसभूषणगात्रलक्ष्मीम् इ त्वेतरान्नो भजतश्चकमेयनं श्री अवनिक्तां श्रीयुगुलो भुक्त्वा क्षीरोपसेचनम् ऊषतुस्तां सुखम् रात्रिं ज्ञात्वा कंसचिकीर्षितुम् कंसस्तु धनुषो भङ्गम् रक्षणां शबलस्य च वधं निशम्य गोविन्दरामविक्रीडितम् परम् दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः बहुन्यचष्टोभयथा मृत्योर्दौत्यकराणि च अदर्शनं स्वशिरस प्रतिरूपे च सत्यपि असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा छिद्रपतिच्छायां तृणघुवं प्राणघोषानुपश्रुतिः स्वर्णप्रतीतिवृक्षेषु स्वपदानामदर्शनं स्वप्ने प्रेत परिष्वङ्गखरियानं विषादनम् याया नलन्दमाल्येकशैलाभ्यको दिगम्बरः अन्यानि चेत्थम्भूतानि स्वप्नजागरितानि च पश्यन्मरणसन्त्रस्तो निद्रां देहेन चिन्तयां दृष्टा संनिशीकौरभ्य सूर्ये चाद्भुतम्भ्यसमुत्थितये कार्यामास वैकंसो मल्लक्रीडामहोत्सवम् आनर्चुपुरुषारङ्गम् तुर्यभेर्यस्य जग्निरे मञ्चाश्लालम् कृता स्रग्भिम् पताका चैलतोरणै ते सुपौरा जनपदा ब्रह्म क्षत्रपुरोगमाः यथोपजोषं विवशो राजानश्च कृताशनाः कंसपरिमितो मात्यै राजमञ्च उपाविशत् मण्डलेश्वरमध्यस्थोहृदयेन विदूयताम् वाद्यमानेषु तुर्येषु सु मल्लतालोत्तरेषु च मल्लासुलङ्कृता दीप्ता सोपाध्याया समाविशन् चालुरो मिष्टिक कूटशालस्तोषल एव च त आसादेस्थानं वल्गूवाद्य प्रहर्षिता नन्दगोपादयो गोपा भोजराजशमाहुताः निवेदितोपायनास्ते एकस्मिन्मञ्च आविशन् इति श्रीमद्भागवते महापुराळे प्रपञ्चां चयितायां दसंस्कन्दे पूर्वार्धे मल्लरङ्गोपवर्णनम्नां द्वे चत्वारिंशोऽध्यायः